हरि ओम् श्री सीता रामचन्द्र अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे तृतीय सर्गः दुर्गद्वार सैन्य विभाग सङ्क्रमण तत्र वानव प्रस्थापनाय हनुमत श्रीरामम् प्रति प्रार्थना सुग्रीवस्यैव च श्रुत्वा हेतुमत् हनुमन्तम् अथा ब्रवीत् तपसा सेतुबन्धेन सागरो शोषणेन च सर्वथापि समर्थोऽस्मि सागरस्यास्य लङ्घने कते दुर्गाणि दुर्गाय लङ्काय तद् द्रवीष्व मे ज्ञातुमिच्छामि तत्सर्वं दर्शन दिववानर बलस्य परिमाणं च द्वार दुर्गक्रियामपि गुप्तीकर्म च लङ्काय रक्षसाम् सदनानि च यथा सुखम् यथावच्च लङ्कायामपि धृष्टवान् सर्वम् आचक्ष तत्त्वेन सर्वथा कुशलो यसि श्रुत्वा रामस्य वचनम् हनुमान् मारुतात्मज हे वाक्यम् वाक्यविधांसेतु रामम् पुनरथाब्रवीत् श्रूयताम् सर्वमाख्यास्ये दुर्गकर्म विधानतः गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः राक्षसा च यथा रावणस्य च तेजसा परां समृद्धिं लङ्काय सागरस्य च भीमताम् विभागं च बलौघस्य निर्देशं वाहनस्य च एवम् मुक्त्वा कपि कथया मास तत्त्वतः वृष्ट प्रमोदिता लङ्का मत्तद्वीपसमाकुल महती रथ सम्पूर्ण रक्षोगणानि सेविता दृढबद्धैकपाटानि बहपरिभवन्ति चत्वारि चे। विफलान्यस्य द्वाराणि सुहान्ति च सत्रेषु फलयन्त्राणि बलवन्ति महान्ति च आगतम् प्रतिसैन्य तत्र प्रतिनिवार्यते द्वारेषु संस्कृताभिमा कालाय समया शिक्षिता शतशोरचिता रचिता वीरे शतग्न्यो रक्षसाङ्गणैः सौवर्णस्तु महान्तस्य प्राकारे दुष्प्रधर्षणः मणि विद्रुम वै मुक्ता चिता महाभी शीत तो यहाँशु अगाधा गृहवत पारिखा मीन सेविता द्वारु दाच संग्र परिता ये उपेता बहु महद्भपंक्तिय परसैन्यागते सति यन्त्रे तैरवकीर्यन्ते परिखासु समन्ततः एकस्व कम्प्यो बलवन् सङ्क्रमणसु मा दृढः काञ्चनै बहुभिः स्तम्भैः वेदिकाभि च शोभितः स्वयं प्रभूतिमापन्नो युयुत्सु रावणः उत्थितश्चाप्रमत्त च बलानां मनुदर्शने लङ्का पुनर्निरालम्बाय देवदुर्गा भयवह नादैयम् पार्वतम् वान्यम् कृतिम्बं चतुर्विधं स्थितापारे समुद्रस्य दूरपारस्य राघवे नोपथश्चापि नास्त्यत्र निरुद्देश च सर्वतः शैलाग्रे रचितः दुर्गा सापूर्देव पुरोपमः व्याजीवारण सम्पूर्ण लङ्काय परमदुर्य परिखा च शतघ्न्या च यन्त्राणि विविधानि च शोभयन्ति पुरीम् लङ्काम् रावणस्य दुरात्मनः अयुतम् रक्षसामत्र पूर्वद्वारम् समाश्रितम् शूलः सा सर्वे खड्गाग्रयोधिनः नियुतम् रक्षसामत्र दक्षिणद्वारमाश्रितम् चतुरङ्गेण सैन्येन योधा तत्राप्यनुत्तमा प्रयुतम् रक्षसामत्र पश्चिमद्वारमाश्रितम् चर्म खड्गे धरा सर्वे तथा सर्वात्र कोविदः न्यर्बुदम् रक्षसामत्र उत्तरद्वारमाश्रितम् रतिनश्चाश्व कुलपुत्रा सु पूजितः शतशोथ सहस्राणि मध्यमम् स्कन्धमाश्रितः यातु धाना दुराधर् च सागरकोटि च रक्षताम् ते मया सङ्क्रमा भग्ना परिखाश्चावपूरितः दग्धा नगरी लङ्का प्राकाराश्चावसादिता बलैकैरेष च पितु राक्षसानाम् आत्मनाम् येन केन तु मार्गेण तरामे वरुणालयम् पतेति नगरी लङ्का वानरै उपधार्यताम् सङ्गतो द्विधो मैन्दो चाम्बवान् पनसो नलह नीलसेनापति चैव बलशेषेण किं तवे गत्वा ताम् रावणस्य महापुरीम् सपर्वतवनाम् भित्वा सखाताम् च सतोकाराम् स भवनाम् आनयिष्यन्ति राघव एवम् अन्यापेक्षिप्रम् बलानाम् सर्वसङ्ग्रहम् मुहूर्तेन सुयुक्तेन प्रस्थानम् अभिरोचय विद्यार्थे श्रीमद् रामायणे वाल्मीकि अधिकारी युद्धकाण्डे तृतीय सर्गः श्री सीता रामचन्द्रार्पणमस्तु